हरि ओम् जयति सा रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे अष्टषष्टितमः सर्गः वसिष्ठस्य ज्ञया पञ्चानां दूतानाम् अयोध्यातः के के देशस्य राजगृहे नगरे गमनम् तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाचः मित्रामाप्तजनान् सर्वान् ब्राह्मणान्तामिदम्बच यदसो मातुलकुले दत्त राज परं सुखी भरतो वसति भ्रात्रा शत्रुघ्नेन उदान्वितः तच्छीघ्रं जवता दूता गच्छन्तु त्वरितं हयै आनेतुम् भ्रातरो वीरो किं तमीक्षामहे वयम् गच्छन्वीति ततः वसिष्ठम् वाक्यमब्रुवन् तेषां तद्वचनम् श्रुत्वा वसिष्ठो वाक्यमब्रवीत् एहि सिद्धार्थविजय जयन्ता शोकनन्दन श्रूयतामिति कर्तव्यम् सर्वानेव ब्रवीमिव परम् राजगृहम् गत्वा शीघ्रम् शीघ्रजवैरयै चक्षशोकैदम्वाच शासनाद्भरतो मम पुरोहित स्वां कुशलम् प्राह सर्वे च मन्त्रिणे परमाणा च निर्यायि कृत्यमाप्ययिकम् त्वया मा चास्मै प्रोषितम् रामम् मा चास्मै पितरम् मृतम् भवन्त शंशिष्यूर् गत्वा राघवाणाम् वितक्षयम् कौशेयानि च वस्त्राणि भूषणानि ि प्रम्मादाय राज्ञश्च भरतस्य च गच्छसे दत्तपथ्य शनादूता जग्मूषम् संनिवेशनम् के केना गमिष्यन्तु हया नारूह्य सम्मताम् तडप्रास्थानकम् कृत्वा कार्यशेषमनन्तरम् वसिष्ठेनाभ्यनुज्ञाता दूतासंसरितम् ययौ नन्तेना परतालस्य प्रलम्बस्य उत्तरं प्रति निषेवयमाणासे जग् नदीम् मध्येन मालिनीम् सेहास्ति न पुरे गङ्गाम् तीर्वा प्रत्यङ्मुखा ययो पाञ्चालदेशमासाद्य मध्येन कुरु आङ्गलम् तरंसी च विमलोदकः निरीक्षमाणा जगमूर्ते दूताकार्यवशा धृतम् ते प्रसन्नोदकाम् दिव्याम् नाना विह सेविताम् उपाति जगमूर्वेगेन शरदण्डाम् जलाकुलाम् निकुल वृक्षमासाद्य दिव्यम् सत्योपयाचनम् अभिगम्याभिवाद्यं च पुलिङ्गाम् प्राविशन् अपि कालम् ततः प्राप्य तेजोभि भवनाच्युतः पितृपैतामहीम् पुण्याम् तिरूरीक्षुमतिम् अभेक्षाञ्जलिपाना च ब्रह्मणान् वेद पारगान् ययुर्मध्येन बाल्लीकान् च पर्वतम् विष्णुपदम् प्रेक्षमाण विपाशाञ्चापि शाल्मलिम् नदीर्वापि चटाकानि पल्वलानि सरांसि चेत् पश्यन्तो विविधान् चापि सिंहान् व्याघ्रान् दृग्न् द्विपान् ययुपथाति महता शासनम् भर्तुरिप्तवः तैशान्त वाहनादूत विकृष्टेन सतापथ गिरिव्रजम् पुरवरम् शीघ्रमासे दुरञ्जत भर्तु प्रियार्थं कुल रक्षणार्थं भर्तु च वंश सपदि गृहार्थूत रात्र्यां तु ते तत्पुरमेव यातः इत्यार्थे श्रीमद् रामायणे वाल्मीकिकाव्ये योज्याकाण्डे अष्टषष्टि तम स्वर्ग